गर्गसंहिता खण्डं सेवेन् विश्वजित्खण्डम् अध्यायम् श्री भगवानुवाचा नमो भगवदे तुभ्यं वासुदेवाय साक्षिणे प्रद्युम्नायानिरुद्धाय नमः सङ्घर्षणाय च अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया चक्षुरुन्मीलिदं येन तस्मै श्रीः गुरवे नमः श्रीगर्ग उवाच युद्धम् श्रीकृष्णचरितं मया ते कथितम् मुने चतुष्पदार्थदम् नृणां किम् भूय श्रोतुमिच्छसि शौनक उवाच बहुलाश्वो मैथिलेन्द्रश्रीकृष्णेष्टो हरिप्रियः किम् पप्राधदे वर्षिम् तन्मे ब्रूहि श्रीगर्ग उवाच उग्रसेनम् यादवेन्द्रम् श्रीकृष्णेन कृतं मुने श्रुत्वा दिविस्मितो राजा नारदम् प्राहमैभिलः बहुलाश्व उवाच कोवायम् मरुतो राजा केन पुण्येन भूतले यादवेन्द्रो महाबुद्धिरुग्रसेनो बभूवः यस्य श्रीकृष्णचन्द्रोऽपि सहायो भूधरि स्वयम् तस्याहो महिमानं मे ब्रूहि देवर्षिसत्तमा नारद उवाच सूर्यवांस्योद्भवो राजा चक्रवर्ती कृते युगे यज्ञम् चकारविधिवन्मरुते यो जगज्जिदः महासम्भृतसम्भारैर्हिमाद्रे पार्श्व उत्तरे संवर्तम् मुनिशार्दूलम् गुरुम् कृत्वा हि दीक्षितः पञ्चयोजनविस्तीर्णकुण्डो भूद्यस्य च अध्वरे योजनम् ब्रह्मकुण्डस्तु गव्यूदिः पञ्चकुण्डकाः मेखलागर्तविस्तारवेदीभिर्निर्मिदा दश सहस्रहस्तमुच्चाङ्गो यज्ञस्तम्भो बभौ महान् विंशद्योजनविस्तीर्णः सौवर्णो यज्ञमण्डपः विधानतोरणैरेजे कदलीर्षण्डमण्डितः ब्रह्मरुद्रादयो देवाः सगणास्तत्र चागदाः ऋषयो मुनयः सर्वे तस्य समाययुः ओदारो दशलक्षाणि दशलक्षाणि दीक्षिताः अध्वर्यवः पञ्चलक्षमुद्गातारस्तधापरे आहूतास्तत्र विद्वांसश्चतुर्वेदविदो द्विजार्थतत्त्वज्ञा कोडिशून्ये प्रपूजिताः हस्तिशुण्डासमान्धाराम् भुक्त्वा ज्यस्य हुदाशनः अजीर्णम् प्राप तद्यज्ञे न चित्रम् विद्धि येभ्यो भागम् वदन्तीह विश्वे देवाः सभाः सदः तेभ्यस्तेभ्यो ददुर्वा ताः परिवेष्टार एव केपि केऽपि जीवास्त्रिलोक्यान्तु न बभूवुर् बुभुक्षिताः सर्वे देवास्तु सोमेन ह्यजीर्णत्वमुपागताः संवर्ताय दददौराज्यम् जम्बूद्वीपस्य चाध्वरे गजानाम् हेमभाराणाम् नियुतानि चतुर्दश सदार्बुदम् हयानाम् तु यज्ञान्ते दक्षिणाम् नृप कोडिशो नवरत्नानाम् महार्षाणाम् महात्मने हयानाम् पञ्चसाहस्रं गजानां शतमेव च शतभारं सुवर्णानां ब्राह्मणे ब्राह्मणे ददौ जलभोजनपात्राणि इमानि प्रस्फुरन्ति च भुक्त्वा तानि विसृज्यासु गदास्तुष्टा द्विजातयः विप्रत्यक्तैस्वर्णपात्रैरुच्छिष्टैर्नृपवर्जितैः हिमाद्रिपार्श्वे शैलो भूद्यापि शतयोजनं मरुतस्य यथा यज्ञो न तथान्यस्य कर्हि चित् त्रिलोक्यां शृणुराजेन्द्र न भूतो न भविष्यदि यज्ञकुण्डाद्विनिर्गत्य परिपूर्णतमः स्वयम् आत्मानं दर्शयामास मरुता यमात्मने कृताञ्चलिपुडो नृपः गदितुं न समर्थो भूद्रो मां ची प्रेमविक्वलः तं प्रेमपूरितं दृष्ट्वा पतितं पादयोर्नदम् उवाच भगवान् साक्षान्मेकगम्भीरया गिरा श्रीभगवानुवाच राजंस्त्वयाहं विनय नतोषितो निष्कारणैर्यज्ञपरैः समर्चितः परं परं ब्रूहि महामदेत्वरं दास्यामि देवैरपि दुर्लभं दिवि श्रीनारद उवाच श्रुत्वा दुराजा मरुदकृताञ्जलिः प्रदक्षिणीकृत्य हरिं परेमेश्वरं सम्पूज्य भक्त्या विशदोपचारकैर्नत्वा भृशं गद्गदया गिराब्रवीद मरुद उवाच न वेत्म्यकम् त्वच्चरणारविन्दतो वरम् परम् श्रीपुरुषोत्तमोत्तम समेत्य गङ्गात्रिषितादिदुर्धियः कनन्दिकोपम् कियथा नरेतराः तथापि याचे तव वाक्यगौरवात्पादारविन्दहृदय अरविन्दाद कदापि मे मा व्रजतु मूलं च दुर्नाम् विदुरार्थसम्पदाम् श्रीभगवानुवाच धन्यस्तिराज्यंस्तव निर्मला मधीः प्रलोभितस्यापि वरैर्नकामभृद तथाभिमतो वरयेप्सिदं वरं विना पदं भक्र सुखान्नमे सुखम् मरुत उवाच देयं यदा मे वरमीप्सितं प्रभो वैकुण्ठलोकं पुरुताद्धरातले रक्षस्थितं मां निजभक्तवत्सल तस्मिन् पुरे भक्तजनैः परैः सह श्रीभगवानुवाच अस्मिन् मनौ देवमनोरथाब्धिं गदेषु विंशेषु युगेषु चाष्ठौ गत्वा धनागम् धरणीम् समेत्य मया गोवत्सपदं गोवत्सपदम् करिष्यसि श्रीनारद उवाच इत्युक्त्वा भगवान् साक्षात् तत्रैवान्तरधीयत सोऽयम् तु मरुतो राजाह्युग्रसेनो बभूवः तम् यत्नम् कारयामास राजसूयम् हरिस्वयम् किम् दुर्लभम् त्रिलोक्याम् तु भक्तानाम् मैथिलेश्वर मरुतस्यापि <Sess> चरितं यशृणोति नृपोत्तम तस्य ज्ञानं सवैराग्यं भक्तियुक्तं प्रजायते इति श्रीगर्गसंहितायां श्रीविश्वचित्खण्डे श्रीनारदबहुलाश्वसंवादे श्रीमरुदोपाख्यानं नाम प्रथमोऽध्यायः ओ गर्गसंहिता खण्डं गर्गसंहिता खण्डं सेवन् विश्वजित्खण्डम् अध्यायं टु बहुलाश्व उवाच कथं चकार विधिवद्राजसूयाध्वरं नृप श्रीकृष्णेन सहायेन वदै तन्नितरां मुने श्रीनारद उवाच उग्रसेन सुधर्मायाम् कृष्णम् सम्पूज्य चैकदा न त्वा प्राहप्रसन्नात्मा कृताञ्जलिपुटः शनैः उग्रसेन उवाच भगवन्नारदमुखात्स्रुतम् यस्य महद्फलम् तम् यत्नम् राजसूयाघ्यम् करिष्यामि तवा ज्ञया त्वत्पादसेवया पूर्वे मनोरथमहार्णवे तेलोर श्री जगत्रिणीक निर्भया पुषोत्तम श्रीभगवाज सम्यवसीदम राजन्वदा यादवेशर ये जगत्कीर्तिलोक्यां संभविष्य आहूय यादवान्ात्सभाश ताम्बूलबीडिकाम् धृत्वा प्रदिज्ञाम् कारय प्रभो ममांशा यादव सर्वे लोकद्वयजिगीषवः जित्वारीनागमिष्यन्ति हरिष्यन्ति बलिम् दिशाम् श्रीनारद उवाच अधान्तकादीनाहूय शक्रसिंहासने स्थितः सुधर्मायाम् प्राक् नृपो धृत्वा ताम्बूलवीडिकाम् उग्रसेन उवाच यो जयेत् समरे सर्वान् जम्बुद्वीभस्थितान् नृपान् मनस्वी शक्रकोदण्डी सोति ताम्बूलबीडिकाम् श्रीनारद उवाच नृपेषु तूष्णीम् प्रकदेषु सत्सु श्रीरुक्मिणीनन्दनयैव चागाद जग्राहताम्बूलचयं महात्मा न त्वा नृपं मैथिलशम्बरारिः प्रद्युम्न उवाच विजित्य समरे सर्वान् जम्भूद्दीपस्थिता नृवान् गृहीत्वा च बलिं तेभ्यः आगमिष्याम्यहं बलाद आगम्यागमनं बभ्रोर्ब्राह्मणस्य गुरोस्तथा अत्याभ्रूणस्य मे भूयान्न कुर्या कर्म चेदिदं श्रीनारद उवाच श्रुत्वा वज शम्बरारे साधु साध्विधियूधभः ऊचुस्तषाम् पश्यताम् च तम् जग्राह यदूत्तमः गर्गाद्यदुकुलाचार्यान्मुहूर्तम् बोध्य यत्नदः तत्स्नानम् कारयामास मुनिभिर्वेदसूक्तिभिः उग्रसेनोधतिलकम् प्रद्युम्नस्य चकारः बलिम् दत्त्वा नमश्चक्रु सर्वे यादवयूधपाः उग्रसेनोदौ प्रद्युम्नाय महात्मने अवजं प्रददौ साक्षात् बलदेवो महाबलः स्वतॄणाभ्यां विनिष्कृष्य तृणावक्षय सायसौ धनुश्च शार्ङ्गधनुष समुत्पाद्य ददौ हरिः किरीडकुण्डले दिव्यपीदं वासो मनोहरम् छत्रं च चामरे साक्षा चोरो वृद्धो ददौ पुनः शद चन्द्रं ददौ तस्मै वासुदेवो महामनः उद्धव प्रददौ साक्षान्मालां किञ्चिनीं शुभाम् अक्रूरो दक्षिणावर्तं शङ्खं विजयदं ददौ श्रीकृष्णकवचं यन्द्रं गर्गाचार्यो ददौ मुनिः तदैव स्यागदशक्रो लोकबालैः शकौ दुपसा आजग् मधुर्ब्रह्मशिवौ देवर्षि गणसंवृतौ प्रद्युम्नाय ददौ शूली त्रिशूलं ज्वलनप्रभम् ब्रह्मा ददौ महाराज पद्मरागं शिरोमणिम् पाशीपाशं शक्तिधरशक्तिम् शत्रुविमर्दिनीम् वायुश्च व्यजने दिव्ययमो दण्डं ददौ पुनः रविर्गदां महागुर्वीं कुबेरो रत्नमालिकाम् चन्द्रकान्तमणिं चन्द्रपरिखं च तनूनपाद क्षुदिश्च पादुगे प्रादादिवे योगमये परे प्रद्युम्नाय ददौ कुन्दम् भद्रपाली तरस्विनी हेमाढ्यमुच्चशिखरम् सहस्रहयसंयुधम् विश्वकर्म कृतं साक्षात् ब्रह्माण्डान्तर् बहिर्गतम् सहस्रचक्रसंयुक्तम् मनोवेगम् कनस्वनम् मञ्जीरकिङ्गुणीजालम् खण्डाण्डङ्कारभूषणम् रथं ददौ महादिव्यम् सहस्रध्वजशोभितम् जैत्रं रत्नमयं शुक्रप्रद्युम्नाय महात्मने शङ्खदुन्दुभयोने दुस्तालवीणादयस्तदा मृदङ्गवेणु सन्नादैर्जयध्वनिसमाकुलैः वेदघोषैर्लजपुष्पैर्मुक्तावर्षसमन्वितैः प्रद्युम्नस्योपरिसुरापुष्पवर्षं प्रचक्रिरे इति श्रीगर्गसंहितायाम् श्रीविश्वचित्खण्डे श्रीनारदबहुलाश्वसंवादे प्रद्युम्नविजयाभिषेको नाम द्वितीयोऽध्यायः ओ गर्गसंहिताखण्डम् सेवन् विश्वजित् अध्यायम् त्रि श्रीनारद उवाच अधनत्वा हरिं कार्ष्णिरुग्रसेनं बलं गुरुं नीत्वाज्ञां रथमारुह्य कुशस्थल्या विनिर्ययौ तथा तमनुगसर्वे यादवा उद्धवादयः शूरसेन शूरसेनदशाहकाः तथा भ्रादर सर्वे गदाध्या गदाभ्याकृष्णनोदिताः सपुत्रा सबला सर्वे साम्बाध्याश्च महारथाः लोह कुण्डलिनो लोहकुकमण्डिताः चतुरङ्गबलोपेदकोडिशस्ते विनिर्ययुः कलापि कंसगरुडमीनतालध्वजैरथैः सूर्यमण्डलसङ्कांश्यैश्चञ्चलाश्विनियोजितैः हेमकुम्भैः स शिखरैर्मुक्ुदा तोरणराजितैः विडम्बयद्भिर्नितरां वायुवेगमदः परम् चामरान्दोलितैर्दिव्यैर्वीरमण्डलमण्डितैः सौवर्णैर्देव भैरेजुर्वीरा मनोहराः मदच्युदाश्चित्रमुदा मदश्च्युदाश्चित्रमुक्ता हेमजालसमन्विताः महोद्धडा गजा उच्चरणत्खण्डारुणाम्बराः गिरीन्द्रशिखरभद्राद्विपेन्द्रान् दिग्विभावितान् विडंब दृश्य राज सैन्ये द्वीपानृप केजिभद्रास्तु कधिता केजिभद्रमृगाचल केजिकश्मीरसंभवा के का मलयेजिमाद्रिप्रभवा के परे मऊंग केचित् कैलासवनसम्भवाः ऐरावदकुले भाश्च चदुर्दन्दा कलाविनः त्रिचुण्डा गरुडाभाश्च गच्छन्ति भुवि चाम्बरी ध्वजयुक्ता कोडिगजा कोडिदुन्दुभिसंयुधाः कोडिसैन्यामहामात्यैरत्नमण्डलमण्डिताः गर्जयन्दो घनश्यामो नीडो दुम्बरराजिदाः इतस्तदो विरेजिस्ते बलेऽब्धौ मकरा इव करैर्गुल्मान् समुत्पाट्यक्षेपयन्तोऽर्कमण्डलम् कम्बयन्तो भुवम् पादैर्मद्धैरार्द्रीकृताचलाः दुर्गाद्रीगण्डशैलादीन् पादयन्तः शिरस्थलेः खण्डयन्तश्च शत्रूणाम् बलमेधादृश्यागजाः सुरङ्गनिर्गदराजन् येजिन् मास्याकलिङ्गजाः औषी नरा कौशलाश्च वैदर्भा कुरजाङ्गलाः काम्बोजजासृजयज्ञाक् कैकेय्यात् कुन्दिभवाः दरदाकेरला आङ्गा भाङ्गाविकटसम्भवाः कौँ कोढका केचित् कर्णाटा गौर्जराहयः सौवीरा सैन्ध वा केचित् पाञ्चाला अर्बुधा के के परि महात्मनः बाजिशाला सुवर्धन्ते तेऽपि सर्वेऽपि निर्गताः श्वेददीपाश्च वैकुण्डा तथा जितपदा नृवा रमा वैकुण्डलोकाश्च प्राप्ता ये देऽपि निर्गताः हेमहारसमयुक्ता मुक्ता माला मनोहराः शिखामणिमहारश्मिसेविता सुपरिचदाः चामरैर्मण्डिता पुच्छदस्फुरत्प्रभाः जादवानां महासैन्ये दृश्यन्ते चेदृश्याहयाः वायुवेग मनोवेगान्नस्पृश्यन्धपदैर्भुवम् अपक्वसूत्रेष्वधिगा बुद्भुदेष्वपि मैथिला व्रजन्धपारदमनुजालेषूर्णा भवेषु च दृश्यन्देविनिराधारा स्वारावारिषु मैथिला गण्डशैलनदी दुर्गगर्तप्रासादसञ्जयान् विलङ्घयन्धः सदधं सञ्चा चञ्चलास्ते तुरङ्गमाः मायूरीं तैतरीं क्रौञ्जीं हंसी ये काञ्जनीं गतिं कुर्वन्तो भुवि नृत्यन्दो मैथिलेन्द्र इदस्ततः केचित्सपक्षा दिव्याङ्गा श्यामकर्णा मनोहराः पीद पुच्चाश्चन्द्रवर्णा वाजिशाला विनिर्गताः उच्चैश्रवकुले जाता सूर्यवाजिभवाः परे आश्विनीसुतविद्याढ्या वरुणेन प्रयोजिताः केजिन्मन्तारभा केजि चित्रवर्णमनोहराः आश्विनीपुष्पसङ्गाशस्वर्णाभाहरितप्रभाः पद्मरागप्रभा केजे सर्वलक्षणलक्षिताः कोडिशकोडिशराजनन्ये राजन्नन्येऽपि निर्गता हयाः धनुर्भृदो भटसैन्ये सङ्ग्रामे लब्धकीर्तयः शक्तित्रिशूलास्य गदा वर्मपाशधराः परे वर्षन्तस्त्रधाराभिप्रलयाभिसमा नृपा दिग्गजा इव दृश्यन्ते मर्दयन्तो ह्यरीन्मृधेर् एवं विनिर्गतं राजन्यधूनां विपुलं बलं दृष्ट्वा सुरा सुरा सर्वे वेसेस्मो परमाद्भुतम् इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे श्री यादवसैन्यगमनं नाम तृतीयोऽध्यायः ओम् गर्गसंहिताखण्डं सेवन् विश्वजित् खण्डम् अध्यायं फोर् श्रीनारद उवाच युद्धं सेनावृतं वीराः प्रद्युम्नम् धन्विनां वरम् श्रीकृष्णबलदेवाज्ञामुग्रसेन उवाचः उग्रसेन उवाच हे प्रद्युम्नमः प्राज्ञ श्रीकृष्णकृपया त्वरं विजित्य नृपदीन् सर्वान् द्वारकामा गयिष्यसि मत्तं प्रमत्तमुन्मत्तम् सुप्तं बालं जडं स्त्रियं प्रपन्नं विरधं भीदम् नरिपुं हन्ति धर्मविद राज्ञो हि परमो धर्म आर्तानामार्तिनिग्रहः उत्पथानां वधश्चेद्ध मादतायी वधार्हणः पुमाञ्योषिदुदक्लीब आत्मसम्भाविदो धमः पुदेषु निरनुक्रोशो नृपाणान् तद्वधोवधः नयिनो राज्ञ प्रजाभर्तुर्धर्मयुद्धे वधो द्विषान् आदिराज्ञो नृपान् पूर्वम् प्राक्स्वायम्भुवो मनुः योरणे निर्भयो भूत्वा कृत्वां कृत्वाङ्घ्रिम् प्रागदोव्यसुः स गच्छेद्धामपरमम् भित्त्वा मार्दण्डमण्डलम् भयाद्रणा भयादृणादुपरतस्त्यक्त्वा युद्धे पदिम् च यः व्रजेद्यः क्षत्रियो भूत्वा समहारौरवम् व्रजेद सेनाम् रक्षेतु राजा हि सेना राजानमेव हि सुदकृत्स्रगदम् रक्षेद्रथिनम् सारथिम् रथी यूयम् च यादव सर्वे समर्थ बलवाहनाः कार्ष्णीमेवाभिरक्षन्तु कार्ष्णीर्वः परिरक्षतु गावो विप्रासुरा धर्मश्चन्तांसि भुवि साधवः पूजनीया सदा सर्वैर्मनुष्यैर्मोक्षकाङ्क्षिभिः वेदा विष्णुवजो विप्रामुखं गावस्तनुर्हरेः अङ्गानि देवता साक्षात् साधवो ह्यसवः स्मृताः श्रीकृष्णोऽयम् हरिः साक्षात् प्रभुः येषाम् चित्ते स्थितो भक्त्या तेषाम् तु विजयः सदा श्रीनारद उवाच शिरसा जगृहुः साक्षादुग्रसेनस्य शासनम् प्रणेमोर्याधव सर्वे कृताञ्जलिपुडा नृपा उग्रसेनं नृपं शूरम् वसुदेवं बलं हरिम् ननामः कार्ष्णि शिरः सा महामुनिम् श्रीकृष्ण बलदेवाभ्यां पुरीं यादे नृपेश्वर दिग्जयार्ची हरे पुत्रप्रययौ यादवै सह चतुर्योजन लम्बीद्धं राजमार्गोऽपि वै बद्धौ हेममयै सर्वैः मैधिलेश्वरः अग्रदो वाहिनी युक्तकृदवर्मा महाबलः ध्वजिनि सहिदपश्चादक्रूरो धन्विनां वरः तत्पश्चादुद्धवो मन्त्री प्रदि मा पञ्चसंयुतः तत्पश्चात् कृष्णचन्द्रस्य सुतास्त्वष्टादश स्मृताः ययुर्महारथ राजन्ये शदाक्षौहिणीयुधाः प्रद्युम्नश्चानिरुद्धश्च दीप्तिमान् भानुरेव च शाम्भो मधुर्बृहद्भानुश्चित्रभानुर्वृगोरुणः पुष्करो वेदबाहुश्च श्रुददेवस्तुनन्दनः चित्रभानुर्विरूपश्च कविर्न्यग्रोध तत्पात्जु सर्वे गदाध्या कृष्णनोदिद भोज वृष्यंधकमधु शूरसे नशाहकाख्या यादवाकथ्यसख्या नृपदे कक्क्य भूमिषु युद्ध यदूना चलदां नृपाणां विकर्षदां तां मखदीं च सेनां कोदण्डटङ्कार युतो भवत् कौ धुङ्कार अताडिदुन्दुभीनांभ्येन्द्र चीत्कार हयेन्द्र हेश नैर्नदद् भुशुण्डीदृढवीरगर्जनैः टक्कानि प्रचण्डमेकायि वदे विडिम् बीरे राजद्भुवो मण्डलमेव दिग्गजा महत्स्वनैस्ते बधरीकृदा इव सद्योधदुर्गं रिपवो विदुद्रुवुर्निस्साहसाकौ चलदां महात्मनां कूर्मस्तु किं हुद क्व गच्छाम युदि द्रवन्तः उपद्रवो हेश विधे क्व यादि चाललोकै सहिता चलेति चले भारं विदेहेश भुवोऽवतारयन् यो भूच्च तस्मै नमो नन्दगुणाय भूभृदे यदि नारद श्री श्रीनारदबहुलाश्वसंवादे प्रद्युम्नदिग्विजयार्थं गमनं नाम चतुर्दोऽध्यायः ॐ गर्गसंहिताखण्डं सेवन् विश्वजित् खण्डम् अध्यायं श्री श्रीबहुलाश्व उवाच काङ्गादेशान् काङ्गान्देशान् ययौ जेतुम् क्रमद सुदः तस्य कर्माण्युदाराणि ब्रूहि देवर्षि सत्तम अहो श्रीकृष्णचन्द्रस्य कृपा भक्तेषु चेदृशी पुनादिप्रसृता ध्याता पापिनम् श्रीनारद उवाच साधु, साधु साधुदे विमलामदिः चरिदम् कृष्णभक्तानाम् पुनादिभुवनत्रयम् तत्कालिमेकधाराश्च भूमे सर्वरजांसि च कविश्चेद्गणयद्राजन् न हरे श्रीमदो गुणान् च दुर्योजनमात्रम् हि छाया यस्य प्रदृश्यते तेन श्वेतादपत्रेण शोभितो रुक्मिणीसुदः रथेन शक्रदत्तेन स्वसैन्यपरिवारिदः कच्छदेशान् ययौ जेतुम् त्रिपुरान् गिरीशो यथा कच्छदेशाधिपशुभ्रो मृगयार्थी विनिर्गदः सेनाम् समागताम् ज्ञात्वा पुरीम् अलाम् समाययौ प्रद्युम्नस्या गदासेन गजपादप्रताडनैः चूर्णयन्ती तरुन्देशान् पादयन्ती च मैथिला उद्धृतैस्तद्रजो वृन्दैरन्धीभूतं नभो भवद भयं प्रापुर्जन सर्वे कच्छदेश निवासिनः तदा विहर्षितशुभ्रो गजानां नीत्वा पञ्चशतं सद्यो हयानामयूतं तथा विशद्भारं सुवर्णानामागदस्यास्य सम्मुखे दत्वा बलिं न नामाशुस्रजा बद्ध्वा करद्वयं तस्मै तुष्ट शम्भराधिप्रदौ रत्नमालिकां संस्थाभ्यराज्ये तं राज्यं तदा हि प्रकृतिः सदा कलिङ्गान् प्रययौ जे दुं रुक्मिणीनन्दनो बली पतत्पताकै सत्सैन्यैर्मेखैरिन्द्र इव व्रजन् कलिङ्गराजस्वबलैः समर्थद्विपवाहनैः निर्ययौ सम्मुखे योद्धुं प्रद्युम्नस्य महात्मनः कलिङ्गमागतं रथेनैकेन तत्सैन्याैर्युयुजे यादवाग्रदः शरबाणैश्च कालिङ्गम् दशभिर्दशभीरधान् आ तडयत् गजान्वीरश्चापम् टङ्कारयन्मुहुः स्वशत्रवश्च स्वे सर्वे अनिरुद्धप्रययु आनिरुद्धप्रयुयुधे प्रद्युम्नस्य प्रपश्यतः अनिरुद्धस्य बाणौकै केचिद्विधा द्विधा कृताः गजाश्च भिन्नशरसपादभिन्ना हया नृप श्रद्धाश्च चूर्णचरणा हताश्वाहतनायकाः रथिसारथयो वा धैर्निपेधुपादपा इव पलायमानां तां सेनां कलिङ्गो वीक्ष्य मैथिलाम् आजकामगजारूढो विच्छिन्नकवचोरुषा द्विसप्ततिभारयुधां गदां शिक्षेप सत्वरं गजेन पादयन्वीराञ्जगर्जखनवद्वनी गदाप्रहारपदिदं किञ्चिद् व्याकुलमानः सम् अनिरुद्धं मृधे वीक्ष्य यादवाक्रोधपूरिदाः तदैव तेडुकालिङ्गं बाणैः तीक्ष्णैः स्फुरत्प्रभैः समां समुद्भटं श्येनं कुररांश्चुभिर्यधा कालिङ्गोऽपि तदा क्रुद्धसज्जं कृत्वा धनुस्वयं टङ्कारयन्मुहुर्बाणैर्बाणां चूर्णी चकारः गतो गदां समादाय बलदेवानुजो बली तद्गजम् ताडयामास वामहस्तेन मैथिल अर्धचन्द्रप्रहारेण विशीर्णो भूद्गजस्तथा इन्द्रवज्रप्रहारेण गण्डशैलो यथा नृप कालिङ्गपदितो भूत्वा गृहीत्वा महदीम् गदाम् गदम् च ताडयामास कालिङ्गम् च गदस्तदा कालिङ्गगदयोस्तत्र घोरं युद्धम् बभूवः विस्फुलिङ्गान् क्षरन्त्यौ द्वे गदे चूर्णी बभूवधुः गदौ गृहीत्वा कालिङ्गम् पादयित्वा रणाङ्गणे चकर्षत्स्वकरेणा शुभणिनं गरुडो यथा गदा प्रहारव्यधिदश्चूर्णितास्ति कलिङ्गराड आययौ शरणं सोऽभिप्रद्युम्नस्य महात्मनः दत्वा बलिं प्राहकलिङ्गराजस्त्वम् देवदेव परमेश्वरोऽसि कक्रोधवन्तम् प्रसफेदकौ त्वां जनो यदा दण्डधरम् नमस्ते यदि श्रीगर्गसंहितायां श्री श्रीनारदबहुलाश्वसंवादे कच्छ कलिङ्गविजयो नाम पञ्चमोऽध्यायः ओम्